नारदपुराणं पूर्वार्धम् अध्यायं 49. नैन् निशम्य तस्यदि वचः परमार्थसमन्वितं प्रश्रया वनतो भूत्वा तमाह नृपतिर्द्विजं राजोवाच भगवन्यत्वया प्रोक्त परमार्थमयं वचः श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः एतद्विवेकविज्ञानं यदि शेषेषु जन्तुषु भवदा दर्शितं विप्र तत्परं प्रकृतेर्महद नाहं वहामि शिबिकां शिबिका मयिनस्थिता शरीरमन्यदस्मत्तो येनेयं शिबिका धृता गुणप्रवृत्तिर्भुदानां प्रवृत्तिकर्म चोदिता प्रवर्तन्ते गुणाश्चैदे किं यदस्मिन् परमार्थज्ञ मम श्रोत्रपथं गदे मनोविह्वलता मेदि परमार्थार्थतां गतम् पूर्वमेव महाभागकपिलर्षिमहं द्विच प्रष्टुमभ्युद्यदो गत्वा श्रेयः किं त्वत्र संशये तदन्तरे च भवता यदितं वाक्यमीरितम् तेनैव परमार्थार्थं त्वयि चेदप्रथावति कपिलर्षिर्भगवदसर्वभूतस्य वै किल विष्णो रंशोज्जगन्मोहनाशाय समुपागतः स एव भगवान् नूनमस्माकं हितकाम्यया प्रत्यक्षतामनुगतस्त तथैतद्भवदोच्यते तन्मह्यं मोहनाशाय यच्छ्रेयः परमं द्विज तद्वदाखिलविज्ञानजलवीच्युजधिर्भवान् ब्राह्मण उवाच परमार्थेन पृच्छसि श्रेयांसि परमार्थानि ह्यशेषाण्येन भूपदे देवताराधनं कृत्वा धनसम्पदमिच्छति पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृपविवकिनस्तु संयोगश्रेयोस्सौ परमात्मना कर्मयज्ञादिकं श्रेयस्वर्लोकफलदायि यद् श्रेयःप्रधानं च भले तदेवानभिसंहिते आत्माध्येयसदा भूपयोगयुक्तैस्तथा परैः श्रेयस्तस्यैव संयोगश्रेयो यः परमात्मनः श्रेयांस्येवमनेकानि सदशोध सहस्रशः सन्त्यत्र परमार्थास्तु न त्वेदे च मे धर्मो यं त्यजदे किन्तु परमार्थो धनं यदि व्ययश्चक्रियदकस्मात् कामःप्राप्त्युपलक्षणः मूत्रश्चेत् परमार्थाख्य सोऽप्यन्यस्य नरेश्वरः परमार्थभूदसोऽन्यस्य परमार्थो हि नः पिता एवं न परमार्थोऽस्ति जगत्यत्र चराचरे परमार्थो हि कार्याणि करणानामशेषतः राज्यादिप्राप्येदत्रोक्ता परमार्थतया यदि परमार्था भवन्त्यत्र न भवन्ति भावंत्य च वैततः ऋग्यजुस्सामनिष्पाद्यं यज्ञकर्म मदं तव परमार्थभूतं तत्राभिश्रूयतां गदतो मम यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया तत्कारणानुगमनाजायते नृपमृण्मयं एवं विनाशिभिर्द्रव्यै सामिदाज्यकुशादिभिः निष्पाद्यते क्रिया या विनाशिनी अनाशि परमार्थस्तु प्राज्ञैरभ्युपगम्यते गम्यते। नाशि न सन्देहो नाशि द्रव्योपपादितं तदेवाफलतं कर्म परमार्थो मदो मम मुक्तिस्साधनभूतत्वात् परमार्थो न साधनं ध्यानमेवात्मनोभूप परमार्थार्थशब्दिदं भेदकारिपरेभ्यस्तु परमार्थो न भेदवान् परमार्थात्मनोर्योगः परमार्थ इदीष्यते मिथ्यैतदन्यद्रव्यं हि नैद्रव्यमयं यदः तस्माच्छ्रेयांस्य शेषाणि नृपैतानि न संशयः परमार्थस्तु भूपालसङ्क्षेपाच्छु यदां मम एको व्यापि समशुद्धो निर्गुणप्रकृतेः परः जन्मवृद्ध्यादिरहित आत्मा सर्वगतो नृप परिज्ञानमयो नाम जात्यादिभि विभुः न योगवान्न युक्तो भूर्नैव पार्थिवः योष्यति तस्यात्मपरदेहेषु सतोऽप्येगमयं हि तद् विज्ञानं परमार्थोऽसौ वेत्ति नो तध्यदर्शनः वेणुरङ्क्रविभेदेन भेदशङ्ादिसंनिधः अभेदो व्यापिनो वायोस्तथा तस्य महात्मनः एकत्वं रूपभेदश्च वाह्यकर्मप्रवर्तिजः देवादिभेदमध्यास्ते नास्त्येव चरणोहितः शृण्वत्र भूव प्राग्वृतं अवबोधं जनयदो निदाधत्यद्विजन्मनः ऋभुर्नामाब्रवत्पुत्रो ब्रह्मणः परमेष्टिनः विज्ञादत्तत्वसद्भावो निसर्गदेव भूपते तस्य शिष्यो निदाकोऽभूत् पुलस्त्यतनयः पुरा प्रादादशविज्ञानं तदस्मै भरया मुद अवास्तज्ञानतत्त्वस्य न तस्याद्वैदवासना सर्भुस्तर्पयामास निदाघस्य देवी कायास्तडेवीर वीर नागरं नाम समृद्धमधिरम्यं च पुलस्त्येन निवेशितं रम्यो पवनपर्यन्तं स तस्मिन् पार्थवोत्तम निदादना मा शिष्यो भवत्पुरा दिव्ये वर्षसहस्रेदु समतीदेस्य तत्पुरं जगामस ऋभुशिष्यं निदाखमवलोकितुम् सतस्य वैश्वदेवन्दिद्वारा लोकनगोचरः स्थितस्तेन गृहीतार्थो निजवेश्मप्रवेशितः प्रक्षालिताङ्घ्रिपाणिं च कृतासनपरिग्रहम् उवाच सद्विजश्रेष्ठो भुज्यतामिति ऋभुरुवाच भो विप्रवर्य भोक्तव्यं गृहे तत्कथ्यतां कदन्नेषु न प्रीधि सततं मम यावक उवाच सक्तु यावकव्रीहिना मपुपानां च मे गृहे यद्रोचदे द्विजश्रेष्ठ तावद्भुङ्क्ष्व यथेच्छया भृभुरुवाच कदन्नानि द्विजैदानि मिष्टमन्नं प्रयच्छ सम्याव संयाव पायसादिनि निदाख उवाच गृहेशालिनि मद्गे हे यत्किञ्चिदधिशोभनं भोज्येषु साधनमिष्टं तेनास्यान्नं प्रसाधय इत्युक्ता तेन सा पत्नी मिष्टमन्नं द्विजस्य तदर् प्रसादितवधि तद्वै भर्तुर्वचनगौरवादर् न भुक्त्रवन्दमिच्छादो मिष्टमन्नं महामुनिं निकप्राहभूपालप्रश्रया वनदस्थितः निदाख उवाच अपि ते परमातृप्तिरुत्पन्ना पुष्टिरेव च अपि ते मानसं स्वस्थमाहारेण कृतं द्विजा क्व निवासी भवान्विप्र क्व वा समुद्यतः आगम्यते च भवता यतस्त निवेद्यतां भृभुरुवाच क्षुदितस्य च भुक्तेर्न्ये तृप्तिर्ब्रह्मन्विजायते न मे क्षुद्धा भवे तृप्तिः कस्मान् मां द्विज पृच्छति स्वस्मिन् पार्थि येन दौदध्ये वैक्षुरातीश्वरः भवत्यम्भसि चक्षीणे नृणां कृष्णासमुद्भवः क्षुतृष्णे देहधर्माख्ये न ममैधेयदो द्विज तदः क्षुत्सम्भवाभावा तृप्तिरस्त्येवमे सदा मनसस्वस्थतातुष्टिश्चित्तधर्मा विमौ द्विज चेतसो यस्य यत्पृष्ठं पुमानेभिर्न युज्यते क्व निवासस्तवेत्युक्तं क्व गन्दासि च यत्त्वया कुतश्चागम्यदे त्वेदात्रितयोऽपि निबोध मे पुमान् सवर्गदो व्यापीत्याकाश्यवदयं यदः कुत कुत्र क्व गन्धासीत्येदप्यर्थवत्कथं सोऽहं गन्धा न चा गन्ता नैकदेशनिकेतनः त्वं चान्ये च न चत्वं त्वं नान्ये नैवाहमप्यहं मिष्टान्ये मिष्टमित्येषाजिह्वासा मे कृता तव किं वक्ष्यतीति तत्रापि श्रूयतां द्विजसत्तमामिष्टामेव यदा मिष्टं तदेवोद्वेगकारणं अमिष्टं जायते मिष्टं मिष्टाद्विद्विजदे जनः आदिमध्यावसानेषु किमन्नं रुचिकारणं मृण्मयं हि मृदा यद्वद्गृहं लिप्तं स्थिरीभवेद पार्थिवोऽयं तथा देहपार्थिवैः परमाणुभिः यव यवगोधूममुद्गाधिर्घृतं तैलं पयो दधि गूढानीदि तथा पार्थिवाः परमाणवः तदेतद्भवदा ज्ञात्वामिष्टामिष्टविचारी यद तन्मनःशमनालम्बी कार्यं प्राप्यं हि मुक्तये इत्याकर्ण्यवचस्तस्य परमार्थाश्रितं नृप प्रणिपत्यमहाभागो निदाघो वाक्यमब्रवीद प्रसीदमद्धितार्थाय कथ्यदां यस्त्वमागतः नष्टो मोकस्तव कर्ण्यवचांस्येतानि मे द्विज ऋभुरुवाच ऋभुरस्मितवाचार्यप्रज्ञादानायदे द्विजः ईहागदोऽहं दास्यामि परमार्थं सुबोधितं एक एवमिदं ये विद्धि न भेदि सकलं जगद वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ब्रह्मण उवाच तथेत्युक्त्वा निदाधेन प्रणिपादपुरःसरं पूजितपरया भक्त्या निश्चितः प्रयय पुन पुनवर्षसहस्रं ते समायादो नरेश्वर निधाकज्ञानदानाय तदेव नगरं गुरुः नगरस्य बहिःसोऽध निधाकं दृष्टवान् मुनिं परिवारे पुरं विशदि पार्थिवे दुरस्थितमहाभागे जनसम्मर्दवर्जकम् क्षुत्क्षामखण्डमायान्दमरण्यात् समित्कुशं दृष्ट्वा निदाघं स ऋभुरूपागत्याभिवाद्य च उवाच कस्मादेकान्तं स्थीयत भवदा निदाख उवाच भो महानेशजनेश्वरे प्रविवक्षौ पुरे रम्येतेनात्रस्ति यदे मया ऋभुरुवज नराधिपोत्रकदमकाधमश्चेदरो जनः कथ्यता मे द्विजश्रेष्ठत्वमभिज्ञो मदो मम निदाख उवाज योऽयं गजेन्द्रमुन्मत्तमाद्रिशृङ्गस्समुच्रयम् अधिरूढो नरेन्द्रोऽयं परिदो यस्तधेतरः प्रभुरुवाच येदौ हि गजराजानौ दृष्टौ हि युगपन्मया भवदा निर्विशेषेण पृथग्वेदोपलक्षितौ तत्कथ्यतामहाभागविशेषो भवदानयोः ज्ञातुमिच्छाम्यहं गोत्र गजको वा नराधिपः निदाक उवाच गजो योयमतो ब्रह्मनुपर्यस्यैष भूपतिः वाह्यवाककसम्बन्धं को न चानादि वैद्विज ऋभुरुवाच ब्रह्मण्यथाघं जानीयं तथा मामवबोधय अद सत्त्वविभागं किं किं चोर्ध्वमभिधीयते ब्राह्मण उवाच इत्युक्त्वा सह सारुक्यनिदाकप्राकथं रुभुं श्रयतां कथयाम्येष यन्मां परिपृच्छसि उपर्यकं यथा राजा त्वमधक्कुञ्जरो यथा अवबोधायते ब्रह्मदृष्टान्तो दर्शितो मया ऋभुरुवाच त्वं राजेवद्विजश्रेष्ठस्थितोऽहं गजवद्यदि तदेवं त्वं समाचक्ष्वा कदमस्त्वमहं तथा ब्राह्मण उवाच इत्युक्तः सत्वरस्तस्य चरणावभिवन्द्य सः निदाखः भगवन्नाचार्यास्त्वमृभुर्मदं नान्यस्याद्वैतसंस्कारसंस्कृतमानसं तथा यथाचार्यस्य तेन त्वमन्ये प्राप्तमहं गुरुं ऋभुरुवाच तवोपदेशदानाय पूर्वशुश्रूषणा तव समुपागतः तदेतदुपदिष्टन्ते संक्षेपेण महामदे परमार्थसारभूतं यत्तदद्वैतमशेषतः ब्राह्मण उवाच यवमुक्त्वा दद्विद्यां निदाकं स ऋभुर्गुरुः निधाकोऽप्युपदेशेन तेनाद्वैतपरो भवद सर्वभूधान्यभेदेन ददृश्ये स तदात्मनः तथा ब्रह्मतनौ मुक्तिमवाच परमाद्विजः तथा त्वमपि धर्मज्ञतुल्यात्मरिपुबान्धवः भवत्सर्वगतं ज्ञानमात्मानमवनीपदे सितनीलादिभेदेन यथैकं दृश्यते न भ भ्रान्तदृष्टिभिरात्मापि तथैक सन्पृथक्पृथक् येकसमस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं तदोऽन्यद सोऽहं सच त्वं स च सर्वमेदधात्मां स्वयं भात्यपभेदमोहः स नन्दन उवाच इदीरितस्तेन राजवर्यस्तत्याजभेदं परमार्थदृष्टिः स चापि जातिस्मरणावबोधस्तत्रैव जन्मन्यपवर्गमाप परमार्थाध्यात्ममेधत्तुभ्यमुक्तमुनीश्वर ब्राह्मणक्षत्रियविशां श्रोतॄणां चापि मुक्तिदम् यदा पृष्टं त्वया ब्रह्मं स्तद्धादेगदिदं मया ब्रह्मज्ञानमिदं शुद्धं किमन्यत् कथयामि वै इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्विपा एकोन पञ्चाशत्तमोऽध्यायः ओम्